सङ्कटनाशलगणपतिस्तोत्रम् नारद उवाच प्रलम्ब्य शिरसा देवम् गौरीपुत्रम् विनायकम् भक्तावासं स्मरेन्नित्यम् आयुष्कामार्थसिद्धये प्रथमम् वक्रपुन्दम् च एकदन्तम् द्वितीयकम् तृतीयम् कृष्णपिङ्गाक्षम् गजवक्त्रम् चतुर्थकम् लम्बोदरम् पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च तथाष्टकम् नवमं फालचन्द्रञ्च दशमं तु विनायकम् एकादशं गणपतिम् द्वादशं तु गजाननम् द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् विद्यार्थी लभते विद्याम् धनाथी लभते धनम् पुत्रार्थी लभते पुत्राम् मोक्षार्थी लभते गतिम् ज्यपेत् गणपतिस्तोत्रम् षड्भिर्मासैः फलम् लभे संवत्सरेण सिद्धिम् लभते नात्र संशयः अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् स्वस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः गिरिश्रीनारदपुराणे सङ्कटनाशनम् नाम गणेशद्वादशनामस्तोत्रं सम्पूर्णम्